स्वस्ति पन्थामनुचरेमसू वरिया चन्द्रमसाविवा पुनर्ददताघ्नदा जानता सङ्गमे मही स्वस्ति पन्थामनुचरेमसू वरिया चन्द्रमसाविवा पुनर्ददताघ्नदा जनता संगमे मही स्वस्तिपन्था मनुचरे स्वस्ति पन्थामनुचरेमसूर्या चन्द्रमसाविवा पुनर्ददता अघ्नदा जनता संगमे मही